अथ चतुर्नवतितमः सर्गः तानि नागसहस्राणि सारोहाणि च वाजिनाम् रथानाम् त्वग्निवर्णानाम् सहस्रशः राक्षसानाम् सहस्राणि गदा परिघयोधिनाम् काञ्चनध्वज चित्राणाम् शूराणाम् कामरूपिणाम् निहतानि रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः राक्षस्यश्च समागम्य दीनाश्चिन्ता परिप्लुताः विधवा हतपुत्राश्च क्रोशन्त्यो हत पर्यदेवयन् कथम् शूर्पणखा वृद्धा कराळा निर्णतोदरी आससादवने रामं कन्दर्पसमरूपिणम् सुकुमारं महासत्वं सर्वभूतहितेरतम् तम् दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता कथम् सर्वगुणैर्हीणा गुणवन्तम् दुर्मुखी रामम् कामयामास जनस्याल्पभाग्यत्वाद्वलिनीश्वेतमूर्धजा अकार्यमपहास्यम् च सर्वलोकविगर्हितम् राक्षसानाम् विनाशाय दूषणस्य खरस्य च चकारा प्रतिरूपा सा राघवस्य प्रधर्षणम् न च सीताम् दशग्रीवः प्राप्नोति जनकात्मजा बद्धम् बलवता वैरमक्षयम् रा राघवेण च वैदेहीम् प्रार्थयानंतं विराधं प्रेक्ष्य राक्षसम् हतमेकेन रामेण पर्याप्तम् तन्निदर्शनं चतुर्दशसहस्राणि रक्षसाम् भीमकर्मणा निहतानि जनस्थाने शरैरग्निशिखोपमैः खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा शरैरादित्यसङ्काशैः पर्याप्तम् तन्निदर्शनम् हतो योजनबाहुश्च कबन्धोरुधिराशनः क्रोधान्नादम् नदंसोऽध पर्याप्तम् तन्निदर्शनम् जघानबलिनम् रामः सहस्रणयनात्मजम् वालिनम् मेरुसङ्काशम् तन्निदर्शनम् ऋष्यमोकेव संश्चैव दीनो भग्नमनोरथः सुग्रीवः प्रापितो राज्यम् पर्याप्तम् तन्निदर्शनम् धर्मार्थसहितम् वाक्यम् सर्वेषाम् रक्षसाम्भितम् योक्तम् विभीषणेनोक्तम् मोहात् तस्य रोचते विभीषणवचः कुम्भकर्णम् हतम् श्रुत्वा राघवेण महाबलम् अतिकायम् च लक्ष्मणेन हतम् तदा प्रियम् पुत्रं पुत्रम् रावणो नावबुध्यते मम पुत्रो मम भ्राता मम भर्तारणे हतः इत्येष श्रूयते शब्दो राक्षसीनाम् कुले कुले हतास्तत्र तत्र सहस्रशः रणे रामेण शूरेण हताश्चापि पदातयः रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः हन्ति नो रामरूपेण यदि वा स्वयमन्तकः हतप्रवीरा रामेण निराशा जीविते वयम् अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः इदम् भयम् महाघोरम् समुत्पन्नम् न बुध्यते तम् न देवान गन्धर्वानपि शाचान राक्षसाः उपसृष्टम् परित्रातुम् शक्ता रामेण संयुगे उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे कथयन्ति हि रामेण रावणस्य निबर्हणम् पितामहेन प्रीतेन देवदानवराक्षसैः रावणस्याभयम् दत्तम् मनुष्येभ्यो न याचितम् तदिदम् मानुषम् मन्ये प्राप्तम् निःसंशयम् भयम् जीवितान्तकरम् घोरम् रक्षसाम् रावणस्य च पीड्यमानास्तु बलिना वरदानेन रक्षसा दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् देवतानाम् हितार्थाय महात्मा उवाच देवतास्तुष्ट इदं सर्वा महध्वजः अद्य प्रभृतिलोकाम् स्त्रीम् सर्वे दानवराक्षसाः भयेन प्रभृता नित्यम् विचरिष्यन्ति शाश्वतम् दैवतैस्त्व समागम्य सर्वैश्चेन्द्रपुरोगमैः वृषध्वजस्त्रिपुरः महादेवः प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत् उत्पत्स्यति हि तार्थम् वो नारी रक्षः क्षयावः एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा भक्षयिष्यति नः सर्वान् राक्षसघ्नी स रावणान् रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः अयम् निष्ठा न अयम को घोरः शोकेन समभिप्लुतः तन्न लोके यो शरणदो भवेत् राघवेणोपसृष्टानाम् कालेनेव युगक्षये नास्ति नः शरणम् किञ्चिद्भये महति तिष्ठता दावाग्निवेष्टितानाम् हि करेणूनाम् यथा वने प्राप्तकालम् कृतम् तेन पौलस्त्येन महात्मना यत एव भयम् दृष्टम् गतः इतीव विषे दुरार्तादिभयाभिपीडिता विने दुरुच्चैश्च तदा सुदारुणम् इत्यादे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्नवतितमः